गणेशपुराणं क्रीडाखण्डम् अध्यायम् 85 क उवाच श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलं पञ्चमे मासि सम्प्राप्ते मरोचिर्वीक्षितुं ययौ भूतभव्यभविष्यज्ञः समलोष्ठास्म काञ्चनः वेदशास्त्रार्थतत्त्वज्ञोन्यस्तत्स्वपरविभ्रमः संहारे रक्षणे सृष्टौ मनसा जगदः क्षमः तं दृष्ट्वा पादयोस्तस्य पदिता सखिभिः सह उपवेश्याशने पादौ क्षालयामासभकृदः तज्जलं पावनं पीत्वा शिषे चान्दर्गुहं मदा उपचारैषोडशभिपुपूजेश्वरभावना उवाच पार्वदी तुष्टा लभ्यं दृष्टं पदं हि ते मुनिरुवाच अहमात्मना देवि नव्रजामिहि कुत्रचिद अकस्माद्ध्यानविषयस्तव पुत्रो तस्यते मे तस्य ते दर्शनाकाङ्क्षी शिवस्याप्यहमागतः क उवाच एवमाकर्ण्यसा वाक्यं स्वकम् अधिप्रेतिमना गौरी तस्याङ्गे संन्यवेशयद ऊचे सा महाभाग्यं फलितं दर्शनात् तव पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति मुनिरुवाच गौरितेयं सुदो ब्रह्मस्वरूपो भासदे मम षट्चक्रभेदनरदा योगनिष्ठा महर्षयः वायुभक्ष्या उपासन्ते यं ते तवात्मजः गुणत्रयभिभेदेन त्रितनुस्त्रिक्रियाकरः यत्सप्तयाध शेषोऽपि वहदे मस्तके भुवं। अनुरूपस्थूलरूपसप्तविंशतितत्त्वकृत चेतना विश्वं यद्रूपं सर्वकर्म कृद युगे दशभुजः विनायकः द्वितीये षड्भुजो बर्हि वाहनशशिसन्निभः मयूरेश इति ख्यादो नानादैत्यनिबर्हणः तृतीयेदु युगे देवो रक्तवर्णश्चतुर्भुजः गजानन इदिख्यादो ख्यादो धूम्रवर्णकलौ युगे धूमकेदुरिधिख्यादो द्विभुजः सर्वदैत्यः एतस्य रक्षणं गौरी दैत्येभ्यः कुरु सर्वदा गौरि उवाच एषो चपलो बालो दैत्यान्हन्ति बहूनपि अग्रे अग्रेकिं कर्म करुतेदि न जाने मुनिसत्तम दैत्या नानाविधा दुष्टात् साधु देवद्रुहकलाः अतोस्य कण्ठे किञ्चित् त्वं रक्षार्थं बद्धुमर्हसि मुनिरुवाच ध्यायेत्सिंहगदं विनायकममुं दिग्बाहुमाध्येयुगे त्रेधायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् द्वापरे दुगजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तुद्विभुजं द्विभुजं सर्वार्थदं सर्वदा विनाय कक्षिकाम् पादु परमात्मा परात्परः अतिसुन्दरकायास्तु मस्तकम् सुमहोत्कटः ललाडं काश्यपपादुभ्रूयुगं तु महोदरः नयने भालचन्द्रस्तु गजास्य त्वोष्ठपल्लवौ जिह्वां पादुगणक्रीडश्चिबुगं गिरिजास्तुदः वाचं विनाय दन्त्रान् रक्षतु दुर्मुखः श्रवणौ पाशपाणिस्तु नासिका चिन्तितार्थतः गणेशस्तु कंठं कण्ठं पादुदेवो गणञ्जयः स्कन्धौ पादु, पादु गजस्कन्धस्तनौ विघ्नविनाशनः हृदयम् गणनाधस्तु हे रम्भो जठरं महान् धराधरपादु पार्श्वं पृष्ठं विघ्नहरशुभः लिंगं गुह्यं सदा वक्रतुंडो महाबलः गणक्रीडो जानुजङ्घे ऊरु मंगलमूर्तिमान् एकदन्तो महाबुद्धिः पादौ गुल्फौ सदा वद क्षिप्रसादनो बाहूपाणी आशाप्रपूरकः अङ्गुलीश्चनकान् पादौ पद्महस्तोरिनाशनः सर्वाङ्गानि मयूरेशो विश्वव्यापी सदा अनुक्तमपि यस्तानं धूम्रके दुःसदावधु आमोदस्त्वग्रदः पादु प्रमोदपृष्ठदो वधु प्राच्यां रक्षतु बुद्धिश आग्नेयां सिद्धिदायकः दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः कौबेर्यां निधिपपायादीशान्यामीशनन्दनः दिवाव्यादेकदन्तस्तु रात्रौ संध्यासु विघ्नकृत राक्षसासुरवेदालग्रहभूतपिशाचदः पाशाङ्गुशधरः पादुरजसत्वं तमस्मृतिं ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्तिं दयाकुलं वपुर्धरं च धान्यं च चा गृहां धारान्सुतान् सखीन् सर्वायुधरः पौत्रान् मयूरे कपिलो जाविकम्पादु गवाश्वं विकटोऽवतु भूर्जपत्रे लिखित्वेदं ह्यःखण्डे धारयेत्सुधीः न भयं जायते तस्य यक्षरक्षः त्रिसध्यम जपदे यात्राकाले यस्त वज्रसारतव यात्रा काले पठेस्तु निर्विघ्न फलद युद्धकाेद्यस्याध्रुव मरणच्चाड़नाकर्ष स्तंभनकर्मण सप्त पठेद्यस्तु दिनामेकविंशतिं तत्तत्फलमवाप्नोति साधको नात्र संशयः एकविंशतिवारं च पठेत् तावद्दिनानि कारागृहगदं सद्यो राज्ञावध्यं च मोचयेत् राजदर्शने वेलायां पठेदे दत्रिवारदः सराजानां वशं नीत्वा प्रकृतिं च सभाञ्जयेद इदं गणेशकवचं मुद्गलेन समीरिदं कश्यपाय च तेनाथ माण्डव्याय महर्षये मह्यं सप्राहकृपया कवचम् सर्वसिद्धिदम् न देयम् भग्निहीनाय देयम् श्रद्धा वदेशुभम् सर्वरक्षाकरम् सर्वमनःकामप्रपूरकम् अनेनास्य कृता रक्षा न बाधास्य भवेत् रक्षसासुरवेतालदैत्यदानवसम्भवा इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशकवचं नाम पञ्चाशीतितमोऽध्यायः ओ